मुद्गलपुराणं घण्डं फैव् लम्बोदरचरितम् अध्यायं 27 सेवेन् दूर्वोत्पत्तिकथनं श्रीगणेशाय नमः दक्ष दुर्वायाश्चरितं हर्षकारकं ब्रूहि मुद्गल अहो शम्या समं नास्ति मन्दारेण पवित्रकम् मुद्गल उवाच पुरादौ देवदेवेशो ब्रह्मा सृष्ट्वाचराचरं तेषामन्नार्थमत्यन्तचिन्तायुक्तो बभूवः ध्यात्वा गजाननं देवं संस्थिधप्रपितामहः तस्य रोमभ्य एका वै देवी सन्निःसृदा बभौ सर्वधपाणिपादां तां सहस्रवदनां परां सहस्रावयवै सर्वैः शोभमानां ददर्शसः ततोऽधिकर्षितो ब्रह्म बभूवे सर्वधारकः ज्ञात्वा तामन्नरूपां वै सर्वपोषणकारिणी धाधारं तं प्रणम्या सौ संस्थिदा करसम्पुडा आज्ञां कुरु जगद्धाद किं करोमि पितामः ब्रह्मोवाच सर्वेषामन्नभूता त्वं दूर्वानाम्नी भविष्यसि तपस्व च ततः सर्वमन्नं स्रज विधानतः तदेदितं प्रणम्यैव तताप तप उत्तमं गणेशं मनसि ध्यात्वा निराहारसमन्विता एपाक्षरस्य मन्त्रस्य जपेन द्विरदाननः दिव्यवर्षसहस्रेण ययौ वरदायकः तं दृष्ट्वा सहसोद्धाय प्रणनाम पुपूजसा अथर्वशिरः सा देवम् तुष्टावकरसम्पुटा सामोवाचगणेशानसृष्टिं नानाविधां सदा करिष्यसि महाभागे सर्ववन्द्या भविष्यसि यमुक्त्वा गणाधीशोऽन्तर्धानं प्रजगामः सापि हर्षसमयुक्ता सृष्टिं कर्तुं मनो दधे तस्यामस्तकभागाद्वै स्वर्गान्नं विविधं महद निःसृतं तेन स्वर्गस्था भुञ्जदे विविधान् रसान् पुदराद्भूमि संस्थानां निःसृतं विविधं विधे अन्नं तेनैव भूमिस्था भुञ्जदे विविधान् रसान् पादालवासिनां पद्भ्यामन्नं नानाविधं परं भुञ्जदे षड्रसान्नित्यं निःसृतं तेन तद्गदाः अङ्गप्रत्यङ्गरूपेभ्यो नानान्नं ससृजे प्रभो देवी तेन दु सन्तुष्टा बभूवु सर्वजन्तवः हृष्टपुष्टजनान् वीक्ष्य ब्रह्मा सन्तोषमादधे तमागत्य द्विजैर्मन्त्रैरभिषेकं चकारः अन्नानामाधिपत्ये चाभिषिक्ता ब्रह्मणा सुशुभे सर्वमान्यासा देवी दूर्वा विशेषतः राज्यश्रीसंयुधा देवी मदयुक्ता बभूवः विसस्मा रजपं मन्त्रं गणेशस्य प्रजापते तदो विघ्नाकुलाजास्पर्ध चक्रे पार्वत्या मादराद विशेष पावत निनपूर्नाहरा जगदंपाजा मनपूर्णास्वूपस्थाधेय गे तस्याश्चेष्टिदमाज्ञाय क्रोधयुक्ता जगन्मयी दौरात्म्यसहनं कृत्वा ह्यतिष्ठच्छिवसन्निधौ चन्द्रगेहे वै बभूवः महोत्सवः तत्र देवादिका सर्वे शस्त्रीकाश्च समाययुः तत्र दुर्वा मदोत्सिक्ता निनन्दजगदम्बिकां वृधेयं जगदम्बा वै नाम्नाख्यादा बभूवः इत्यादिविधैर्वाक्याैर्निनिन्दजगदम्बिकां तथ क्रोधसमायुक्ता पार्वतीतां शशापः पार्वत्युवाच मदीयरोमकोपस्था निःसृता त्वं न संशयः वृथा मां स्पर्धसे दुष्ठे पदस्वतृणरूपिणी पृथिव्यां तृणरूपा सा बभूव प्रजापदे तदादि सर्ववन्द्येयं दूर्वा परमपावनी ततोऽदिदुःखसंयुक्ता सस्मारद्विरदाननं भोक्षमस्वापराधम्मे मे मन्त्रत्यागकृतं प्रभो गत्वा वनान्तरे दूर्वा तताप उत्तमं ध्यात्वा विघ्नेश्वरं देवं मन्त्रजपरायणाः गेवर्षशदे पूर्णे प्रसन्नोऽभूद्गजाननः तामाययौवरं दातुं भक्तिस्थां भजनप्रियः आगदं गणराजं सा दृष्ठाननाम भावतः संहृष्टा कृत्वा करपुडं विधे दोर्वोवाच गणेशाय नमस्तुभ्यं विघ्नराजाय ते नमः भक्तानां विघ्नसंहर्त्रे त्वभक्तानां भयङ्कर अनन्ताय प्रमेयाय नानालीलाधराय च एरम्बाय महेशानां नमः पूज्याय ते नमः सर्वपूज्याय सर्वादिपूज्याय ब्रह्मरूपिणे ब्रह्माकाराय सर्वेश ब्रह्मणस्पतये नमः अनाकाराय साकारमूर्तये ब्रह्मरूपिणे शान्तिभ्यः शान्तिदात्रे ते परेशाय नमो नमः लम्बोदराय चौरेशवाहनाय परात्मने चतुर्भुजाय सर्वेषां मात्रे पित्रे नमो नमः ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने महोदराय पूर्णाय पूर्णानन्दाय ते नमः स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिमयाय च सिद्धिबुद्धिपदेनाथ भक्तेशाय नमो नमः किं स्तौमि त्वां गणाधीश यत्र वेदाविसिस्मिरे अतस्त्वां प्रणमाम्येव तेन तुष्टो भवप्रभो एवं स्तुत्वा गणेशानं भक्तियुक्दाननर्तः जगाद गणराजस्तु दूर्वां तां श्री श्रीगणेश उवाच त्वया स्तोत्रम कृतमिदं स्तोत्रमपराधसहम्भवेद् मां स्तौदि तस्य दुर्वेहमपराधं सहाम्यहं यं, यं तं तं दास्यामि सर्वदा भुक्तिमुक्तिप्रदं स्तोत्रं भविष्यदि सुसिद्धिदं वरं वर यदास्यामि चित्तस्थं भक्तितोषितः क्रोधयुक्तोऽपि देवि मन्त्रत्यागकरीं पुनः श्रुत्वा तम्भयसंयुक्ता जगादवाक्यमुत्तमं दूर्वालम्बोदरं प्रीत्या साश्रुनेत्रा प्रजापदे दूर्वोवाच वरदोऽसि यदा नाथ तदा दे भक्तिमुत्तमां दृढां देहि गणाध्यक्ष तया सर्वं शुभं भवेद् अन्यच्च मदसंयुक्तां जगदम्बां गजानन स्पर्धेऽहं तत्कलां सा वै तया शप्तादिदारुणं तृणरूपा भविष्यामि पदिष्यामि धरातले तदर्थम् मनुप्राप्ता रक्ष मां महदो भयाद श्रीगानन उवाच मा कुरुष्व वृथा चिन्तां दूर्वे मे शरणागदे सर्वं शुभं करिष्यामि भविष्यामि नियन्त्रितः अंशेन तृणरूपा भविष्यसि महीतले देवी देवधरा स्वर्गे चरिष्यसि यथा पुरा पृथिव्यां तृणरूपात्वममृतरूपधारिका सदमूला प्रकाण्डाद्वै प्ररोहा च सदाङ्गुरा सर्वमान्या सर्वपूज्या देवादीनां सदाप्रिया भविष्यसि न सन्देहो मध्वराधननायिके महामङ्गलता प्रोक्ता मम प्रीतिविवर्धिनी भविष्यसि तु लोकानां शुभमङ्गलदायिका त्वत्पत्रेण नरा वर्चयिष्यन्ति देवपान् न मं तु पत्रेषु पुण्यदं प्रभविष्यति शक्रेश्चैवावताराये लक्ष्मी ललितिकादयः तासां प्रियाविशेषेण भविष्यसि महाशुभे शा पिता गिरिपुत्र्या त्वं सा कदा अन्यत्र मान्यभावेन भविष्यसि न संशयः मदीया भक्तिरत्यन्तम् दृढा ते प्रभविष्यति मच्चित्ता मद्गदप्राणा भविष्यसि च दूर्विके मदीयामिच्छसि भक्तिमतस्तेकम् सुहर्षितः करिष्यामि सदा देवि मम प्रीतिविवर्धिनीं दूर्वापत्रं विना देवि पूजयिष्यन्ति मां नराः तेषां नैव फलं तस्याः पूजाया प्रभविष्यति दूर्वासमं न मे सुप्रियं भवेत् विना निराहारी भविष्यामि निरन्तरं त्यक्त्वा दूर्वादलं ये वै पूजयिष्यन्ति मानवाः शत्रवस्ते मदा नित्यं नरकेषु पचन्तु ते येनार्पितं च पूजायां दूर्वापत्रं महामदे ेनापारमयम् सर्वं दत्तं मह्यं विशेषतः दूर्वापत्रेण सन्धुष्टो दास्यामि सकलं च मे ऐश्वर्यं तदपि प्राज्ञे नसमं समं दूर्वया भवेद् ये मद्भक्ताश्च तैर्नित्यं कर्तव्यं दूर्वयायुधम् तुजनं मे सदा देवि जिदोऽहं नात्र संशयः एवमुक्त्वा गणेशानोऽन्तर्दथे च प्रजापते दूर्वाकर्षसमयुक्ता विघ्नेशं भजते परं यथा लम्बोदरेणैव कथितं तादृशं नराः देवेशाद्यास्ततश्चक्रुः पार्वती सा विशेषतः सर्वमङ्गलरूपा सा बभूवे पापनाशिनी गणेशवरदानेन गाणपत्या तथा भवद यदत्ते सर्वं दूर्वा शृण्वदे पठदे तस्मै भुक्तिमुक्तिप्रदं भवेद ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते दूर्वोत्पत्तिकथनं नाम सप्तविंशतितमोऽध्यायः Om oh.